ते नर्धमाना इव कालमेघाः कथा विचित्राः कथयाम्बभूवुः न वैश्यशूद्रौपैकिः कथास्ता न च द्विजानां कथयन्ति वीराः निःसंशयं क्षत्रियपुङ्गवास्ते यथा हि युद्धं कथयन्ति राजन् आशाहिनो व्यक्तमियं समृद्धा मुक्तान् हि पार्थाच्छृणुमोऽग्निदाहात् यथा हि लक्ष्यम् निहतम् धनुश्च सज्यम् कृतं तेन तथा प्रसह्या यथा हि भाषन्ति परस्परम् ते छन्ना ध्रुवम् ते प्रचरन्ति पार्थाः ततः स राजा द्रुपदः प्रहृष्टः पुरोहितम् प्रेषयामास तेषाम् विद्यामयुष्मानिति भाषमाणो महात्मानः पाण्डुसुतास्तु कच्चित् गृहीतवाक्यो नृपते पुरोधा गत्वा प्रशंसामभिधाय तेषाम् वाक्यम् समग्रम् नृपतेर्यथावत् उवाच चानुक्रमविक्रमेण विज्ञातुमिच्छत्यवनीश्वरो वः पाञ्चालराजो वरदो वरार्हाः लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा हर्षस्यनन्तम् प्रतिपद्यते सः अख्यातच च ज्ञातिकुलानुपूर्वीं पदं शिरः प्रहलादयद्धं। द्विषतां कुरुध्वम् प्रह्लादयध्वं हृदयम् ममेदम् पाञ्चालराजस्य च सानुगस्य पाण्डुर्हि राजा द्रुपदस्य राज्ञः प्रियः सखा चात्मसमो बभूव तस्यैष कामो अयं हि कामो द्रुपदस्य राज्ञो हृदि स्थितो यदर्जुनो वै पृथुदीर्घबाहुः धर्मेण विन्देत सुतामयिताम् कृतं हि तत्स्यात् सुकृतम् अमेदम् यशश्च पुण्यं च तदेतत् अथोक्तवाक्यं हि पुरोहितं स्थितम् ततो विनीतं समुदीक्ष्य राजा